ीशेषा भाष्यमिदमिदम् भाष्यमीशेषा भाष्यमिदम् भाष्यमिदमिदं भाष्यम् भाष्यमिदां सर्वज्ञ सर्वमिदम् भाष्यम् भाष्यमिदां सर्वम् इदाम् सर्वज्ञ सर्वमिदमिदाम् सर्वमिदमिदाम् सर्वत् सर्वज्ञ सर्वज्ञ सर्वम् यत्किङ्कित्किञ्चत्किञ्च किञ्च किम् किञ्च जगत्याम् जगत्याञ्च किम् किञ्च जगत्याम् च जगत्याम् जगत्याम् च जगत्याम् जगज्जगज्जगत्याम् च जगत्याम् जगत् जगत्याम् जगज्जगज्जगत्याम् जगत्याम् जगत् जगदिति जगत् तेन त्यक्तेन तेन तेन त्यक्तेन भुञ्जीथा भुञ्जीथास्त्यक्तेन तेन तेन त्यक्तेन भुञ्जीथा त्यक्तेन भुञ्जीथा भुञ्जीथास्त्यक्तेन त्यक्तेन भुञ्जीथा मा मा ना ना मा भुञ्जीथा मा मा भुञ्जीथा मा गृधो गृधो मा भुञ्जीथा भुञ्जीथा मा गृधः मा गृधो गृधो मा मा गृधः कस्य कस्य मा मा गृधः गृधः कस्य कस्य गृधो गृधः कस्य स्वित् स्वित्कस्य गृधो गृधः कस्य स्वित् कस्य स्वित् स्वित्कस्य कस्य स्विद्धनन्धनग्रस्वित्कस्य कस्य स्विद्धनम् स्विद्धनन्धनग्रस्वित् स्विद्धनम् धनमिति धनम् कुर्वन्नेवैव कुर्वन् कुर्वन् नेवेहेहैव कुर्वन् कुर्वन् नेवेह एेःहै वैवेह कर्माणि कर्माणि है वैवेह कर्माणि इह कर्माणि कर्माणि हेह कर्माणि जिजिविषे जिजिविषेत् कर्माणि हेह कर्माणि जिजिविषे कर्माणि दिजि विषेद्यिजि विषेत्कर्माणि कर्माणि दिजि विषेच्छतग् शतञ्जिजि विषेत्कर्माणि कर्माणि दिजि विषेच्छतम् दिजि विषेच्छतग् शतञ्जिजि विषेद्यिजि विषेच्छताम् समाः समाः शतञ्जिजि विषेद्यिजि विषेच्छताम् समाः शतां समाः समाः शतग्ने शतां समाः समा इति समाः एवन्तयि त्वय्येवमेवन्तयिन न त्वय्येवमेवन्तयिन त्वयि न त्वयि त्वयिनान्यथान्यथा न त्वयित्वयिनान्यथा न्यथान्यथा नान्यथेतयितोऽन्यथा नान्यथेतःस्ति न कर्म कर्म नन कर्म लिप्यते लिप्यते कर्म नन कर्म लिप्यते कर्म लिप्यते लिप्यते कर्म कर्म लिप्यते न रे न रे लिप्यते नरे नर इति नरे असुर्या नामनामासूर्याः असुर्या नामते ते नामाः सूर्याः असुर्या नामते नामते ते नामनामते लोका लोकास्तेनामनामते लोकाः ते लोका लोकास्ते ते लोका अन्धेनान्धेन लोकास्ते ते लोका अन्धेन लोका अन्धे नान्धेन लोका लोका अन्धे न तमसा तमसान्धेन लोका लोका अन्धे न तमसा अन्धे न तमसा तमसान्धे नान्धेन तमसावृता आवृतास्तमसान्धे नान्धे न तमसा वृताः तमसा वृता आवृतास्तमसा तमसा वृताः वृता इत्यावृताः ताग्रस्तेताग्रस्ताग्रस्ते प्रेत्यप्रेत्यतेताग्रस्ताग्रस्ते प्रेत्या चे प्रेत्य प्रेत्यते प्रेत्याभ्यभिप्रेत्य चेते प्रेत्याभिः प्रेत्याभ्यभिप्रेत्य प्रेत्याभिगच्छन्ति गच्छन्त्यभिप्रेत्य प्रेत्याभिगच्छन्ति प्रेत्येतिप्रा इत्या अभिगच्छन्ति गच्छन्त्यभ्यभिगच्छन्ति ये ये गच्छन्त्यभ्यभिगच्छन्ति ये गच्छन्ति ये ये गच्छन्ति गच्छन्ति ये के े के चचके ये ये के च के चचके केचात्महन आत्महनश्च के केचात्महनः चात्महन आत्महनश्चात्महनो जना जनाः आत्महनश्चात्महनो जनाः आत्महनो जना जनाः आत्महन आत्महनो जनाः आत्महन इत्यात्मा अने एजदे कमेकमने जदने जदे कं मनसो मनस जदने एजदे कं मनसः मनस एकमेकं जवी यो जवी यो मनस एकमेकं मनसो जवीयः manaso jabi yo jabi yo manaso manaso jabi yo nana jabi yo manaso manaso jabi yo na jabi yo nana jabi yo jabi yo nainad nana jabi yo jabi yo nainad nainad nana nainad deva deva e nana nainad deva एनदेवादेवा एनदेनद्देवा आप्नुवन्नाप्नुवन् देवा एनदेनद्देवा आप्नुवन् देवा आप्नुवन्नाप्नुवन् देवा देवा आप्नुवन् पूर्वम् पूर्वमाप्नुवन् देवा देवा प्नुवन् पूर्वम् पूर्वमाप्नुवन्नाप्नुवन् पूर्वमर्षदर्षत् पूर्वमाप्नुवन्नाप्नुवन् पूर्वमर्षते पूर्वमर्षदर्षत्पूर्वम् पूर्वमर्षते अरिषदित्यर्षते तद्धावतो धावतस्तत्तद्धावतोऽन्यानन्यान् धावतस्तत्तद्धावतोऽन्या धावतोऽन्यान्यान् धावतो धावतोऽन्यानत्यज्यान् धावतो धावतोऽन्यानति अन्यानत्यन्यान्यानत्येत्येत्यजान्यानत्येतीत्ये एतिष्ठत् तिष्ठतेत्यच्चे एति तिष्ठति स्मि व्यस्तस्मि ग्यस्तिष्ठत्तिष्ठत्तस्मिन्नापोपस्तस्मि ग्यस्तिष्ठत्तिष्ठत्तस्मिन्नमः tasmin na bho vastasmi dis tasmin apo ma adrishwa ama tadishwa pas tasmin gastasmi dis tasmin apo ma adrishwa apo ma adrishwa ama tadishwa bho bho ma adrishwa adatha tadathi ma tadishwa bho bho ma adrishwa adatha ti rishwa adadhaati dadhaati ma tadrishwaa ma tadrishwaa dadhaati dadhaati te dadhaati tade ejatte jati tattade ejatinanai jati tattade ejatinan ye jati nanai jatte jati me jatte jati nai jatte jati ne jati ने जगत्येजति नेजति दूरे दूर ए एजति नने जति दूरे ये दूरे दूर ए एजते यति दूरव अन्तिकेन्तिकौ दूर ए एजते यति दूरव अन्तिके दूरव अन्तिकेन्तिकौ दूरे दूरव अन्तिके भूयित्यो अन्तिक इत्यन्तिके antarasyasya antarantara syasya sarvasya sarvasyasya antarantara syasya sarvasya asya sarvasya sarvasyasya asya sarvasyo sarvasyasya sarvasyo sarvasyasya asya sarvasyo sarvasya सर्वस्य सर्वस्य सर्वस्य सर्वस्य सर्वस्य सर्वस्यास्य सर्वस्य सर्वस्य सर्वस्य सर्वस्यास्य ऊं यत् जोम सर्वस्यास्य धर्मस्य सर्वस्यास्य वाक्यतो वाक्यतोस्य सर्वस्य सर्वस्यास्य वाक्यतः अस्य बाह्यतो बाह्यतोऽस्यास्य बाह्यतः बाह्यत इति बाह्यतः यस्तु तु यो यस्तु सर्वाणि सर्वाणि तु यो यस्तु सर्वाणि तु भूतानि भूतानि सर्वाणि तु सर्वाणि भूतानि सर्वाणि भूतानि भूतानि सर्वाणि सर्वाणि भूतान्यात्मन्नात्मन्भूतानि सर्वाणि सर्वाणि भूतान्यात्मन्ने भूतान्यात्मन्नात्मन् भूतानि भूतान्यात्मन्नेवैवात्मन्भूतानि भूतान्यात्मन्नेव आत्मन्नेवैवाऽऽऽऽऽऽऽऽऽऽत्मन्नात्मन्नेवानुपश्यत्यनुपश्यत्येवात्मन्नात्मनेवानुपश्यति एवानुपश्यत्यनुपश्यत्येवैवानुपश्यति अनुपश्यतीत्यनुपश्यति सर्वभूतेषु च सर्वभूतेषु सर्वभूतेषु चात्मानमात्मानम् च सर्वभूतेषु सर्वभूतेषु चात्मानम् सर्वभूतेष्विति सर्वभूतेषु चात्मानमात्मानम् च चात्मानन्ततस्तत आत्मानम् च चात्मानन्ततः आत्मानन्ततस्तत आत्मानमात्मानन्ततो न तत आत्मानमात्मानन्ततो न ततो नन ततस्ततो न विन ततस्ततो न मे न विनन विजुगुप्सते जुगुप्सते विनन विजुगुप्सते विजुगुप्सते जुगुप्सतेऽपि विजुगुप्सते जुगुप्सत इति जुगुप्सते यस्मिन् सर्वाणि सर्वाणि यस्मिन् यस्मिन् सर्वाणि भूतानि भूतानि सर्वाणि यस्मिन् यस्मिन् सर्वाणि भूतानि सर्वाणि भूतानि भूतानि सर्वाणि सर्वाणि भूतान्यात्मात्मा भूतानि सर्वाणि सर्वाणि भूतान्यात्मा ्यात्मात्मा भूतानि भूतान्यात्मैवात्मा भूतानि भूतान्यात्मैवा आत्मैवात्मात्मैवाभूदभो देवैवा भूद्विजानतो विजानतो भू देवैवा भूद्विजानतः अभूद्विजानतो विजानतो भूलभूद्विजानतः विजानत इति जानतः तत्र कः कस्तत्र तत्र कोमो होमो हः कस्तत्र तत्र कोमोहः कोमो होमो हः कः कोमो हः कः कोमो हः कः कोमो हः कः मो हक्क को मो ह मो हक्क शोक शोक को मो हो मो हक्क शोक ह क शोक शोक क क शोक एकत्वमे तत्ज्ञ शोक क क शोक एकत्वं शोक एकत्वमे एकत्त शोकः शोक एकत्वमनुपश्यतो नुपश्यत एकत्तग्रे शोकः शोक एकत्वमनुपश्यतः एकत्वमनुपश्यतो नश्यत एकत्वमे एकत्वमनुपश्यतः एकत्वमित्येकत्वम् अनुपश्यत इत्यनुपश्यतः स परि परि सस पर्यगादगात् परिससपर्यगात् पर्यगादगात् परिपर्यगाच्छुक्रज्ञ शुक्रमगात् परिपर्यगाच्छुक्रम् अगाच्छुक्रज्ञ शुक्रमगादगाच्छुक्रमकायमकायज्ञ शुक्रमगादगाच्छुक्रमकायम् शुक्रमकायमकायज्ञे शुक्रज्ञे शुक्रमकायमौ प्रणमौ प्रणमकायज्ञे शुक्रज्ञे शुक्रमकायमौ व्रणम् कायमौ प्रणमौ प्रणमकायमकायमौ प्रणमस्ना विलमस्ना विलमौ प्रणमकायमकायमौ प्रणमस्ना विरम् ्रणमस्न विरमस्न विरमम् प्रणमौ व्रणमस्ना विराम् शुद्धज्ञे शुद्धमस्न विरमम् प्रणमौ प्रणमस्ना विराम् शुद्धम् अस्ना विराम् शुद्धज्ञे शुद्धमस्ना विरमस्ना विराम् शुद्धमपाः पविद्धमपा पविद्धज्ञे शुद्धमस्ना विरमस्ना विराम् शुद्धमपाः पविद्धम् शुद्धमपाः पविद्धमपाः पविद्धग् शुद्ध ग शुद्धमपाः पविद्धम् अपाः पविद्धमित्यपाः पविद्धम् कविर्मनीषि मनीषि कविः कविर्मनीषी परिभोः परिभोन्मनीषि कविः कविर्मषी परिभोः manije parbho parbho manije manije parbho svambho svambho parbho manije manije parbho svambho svambho परिभो स्वयम्भो स्वयम्भोः परिभोः परिभो स्वयम्भोर्याथा तथ्यत याथा तथ्यत स्वयम्भोः परिभोः परिभो स्वयम्भोर्याथा तथ्यतः परिभूरिति परिभूः स्वयम्भोर्याधा दक्षतो याधादक्षतः स्वयम्भो स्वयम्भोर्याधा दक्षतोऽर्थानर्थान्याथादक्षतः स्वयम्भो स्वयम्भोर्याधा याथादक्षतोर्थानक्थान्याथादक्षतो याथादक्षतोर्थान् निम्यथान्याथादक्षतो याथादक्षतोर्थान्मे याथादक्षत इति याथा गच्छतः तत्थान्निम्यथानक्षान् व्यदधादथाद् व्यक्थानर्थान् व्यदधा व्यदधा ददधा विव्यदधा शाश्वतेभ्यः शाश्वतेभ्यो अदधा विव्यदधा चाश्वतेभ्यः अदधा चाश्वतेभ्यः अदधा ददधा शाश्वतेभ्यः समाभ्यः अदधा ददधा शाश्वतेभ्यः शाश्वतेभ्यः समाभ्यः समाभ्यः शाश्वतेभ्यः शाश्वतेभ्यः समाभ्यः समाभ्य इति समाभ्यः अन्धन्तमस्तमोऽन्धमन्धन्तमः प्रथमान्धमन्धन्तमः तमः प्रप्रदमस्तमः प्रविशन्ति विशन्ति प्रथमस्तमः प्रविशन्ति प्रविशन्ति विशन्ति प्रप्रविशन्ति ये ये विशन्ति प्रविशन्ति ये विशन्ति ये ये विशन्ति विशन्ति ये विद्यामविद्या ये विशन्ति विशन्ति ये विद्या ये विद्यामविद्या ये ये विद्यामुपासतमुपासते विद्या ये ये विद्यामुपासते अविद्यामुपासत उपासते विद्यामविद्यामुपासते उपासत इत्युपासते ततो भूय इव भूय इव ततस्ततो भूय इव ते भूय इव ततस्ततो भूय इव भूय इव भूय इव भूय इव तमस्तमस्ते भूय इव भूय इव ते भूय इमेति भूयः इव एतमस्तमस्तेते तमोयेतमस्ते ते तमोये तमोयेयेतमस्तमोयौ विद्यायाम् विद्यायामुयेतमस्तमोयौ विद्यायाम् यौ विद्यायाम् विद्यायाः मुये यौ विद्याया अग्ररता रता विद्यायाः मुये यौ विद्याया अग्ररताः इत्योम् विद्याया अग्ररता रता विद्यायाम् विद्याया अग्ररताः रता इति रताः अन्यदेवैवान्यदन्यदेवाहु राहुरेवान्यदन्यदेवाहुः देवाहुराहुरेवै बाहुर्विद्यया विद्ययाहुरेवै बाहुर्विद्ययाः आहुर्विद्ययाः विद्ययाहुराहुर्विद्ययान्यदन्यद्विद्ययाहुराहुर्विद्ययान्यदे विद्ययान्यदन्यग् विद्यया विद्ययान्यदा आहुराहुरन्यग्विद्यया विद्ययान्यदा आहुः अन्यदा आहुराहुरन्यदन्यदा आहुरविद्यया विद्ययाहुरन्यदन्यदा आहुरविद्यया आहुरविद्यया विद्ययाहुराहुरविद्यया अविद्ययेत्यविद्यया इति शुश्रुमशुश्रुमेति इति शुश्रुमधिराणाम् धीराणाग्ने सुश्रुमेतीति सुश्रुमधिराणा शुश्रुमधिराणाम् धीरानाग्ने शुश्रुमशिश्रुमधिराणाय ये धीरानाग्ने शुश्रुमशिष्टमधिराणा ये धीराणाय ये धीरान् येन ये धीराणा धीराणा येन येन ये येनस्तत्तन्नो ये येनस्तत् नस्तत्तन्नस्तद्वितचक्षिरे वितदक्षिरे तन्नस्तद्वितदक्षिरे तद्वितचक्षिरे वितचक्षिरे तत्तद्वितदक्षिरे विचचक्षिर इति वि चचक्षिरे विद्याम् च विद्याम् विद्याम् चाविद्याम् विद्याम् च विद्याम् विद्याम् चाविद्या चाविद्यामविद्याम् चाविद्याम् चाविद्याम् चाविद्याम् च अविद्याम् चाविद्यामविद्याम् चयोयश्चाविद्यामविद्याम् चयः ययो यश्च जयस्तत्तद्यश्च जयस्तत् यस्तत्तद्यो यस्तद्वेदवेद तद्यो यस्तद्वेद तद्वेदवेद तत्तद्वेदोऽभयमुभयम् वेद तत्तद्वेदोभयम् वेदोभयमुभयम् वेदवेदोभयांसहसहोभयम् वेदवेदोभयांसः उभया अंसहसहोभयमुभया अंसः सहेति सहा अविद्यया सहे मृत्युम् मृत्युमविद्यया विद्यया मृत्युम् तीर्त्वा तीर्त्वा मृत्युमविद्यया विद्यया मृत्युम् तीर्त्वा मृत्यन्तिर्त्वा तीर्त्वा मृत्यम् मृत्यन्तिर्त्वा विद्ययाः विद्यया तीर्त्वा मृत्युम् मृत्यन्तिर्त्वा विद्यया तीर्त्वा विद्ययाः विद्यया तीर्त्वा तीर्त्वा विद्यया मृतममृतम् विद्यया तीर्त्वा तीर्त्वा विद्ययामृतम् विद्ययामृतममृतम् विद्यया विद्ययामृतमश्नुतेष्नुतेऽमृतम् विद्यया विद्ययामृतमश्नुते अमृतमश्नुतेष्णुतेऽमृतमृतमश्नुते अश्नुत इत्यश्नुते अन्धन्तमस्तमोन्धमन्धन्तमप्रकृतमोद्धमन्धन्तमप्र तमः प्रथमस्तमः प्रविशन्ति विशन्ति प्रतमस्तमः प्रविशन्ति प्रविशन्ति विशन्ति प्रविशन्ति मुपासत उपासतेमुपासते असम् भूतिमुपासत उपासते सम् भूतिमसम् भूतिमुपासते असम् भूतिमित्यसम् भूतिम् उपासत इत्युपासते